षोडशोऽध्यायः तृतीयखण्डशिष्यशङ्घेन सहितं पश्चात् स्वामी समागतः लाहोरनगरं तस्य स्वास्थ्यं सम्यक् तदा नही अधस्तुर्णं सतीर्थेन स गता शिष्यास्तु शिष्याष्टुमन्य सलान्यपि तस्मिन् अवसरे स्वामी श्वासरोगेण पीडितः तथाप्यनारतं स्वामी लग्नो विविधकर्मशो अस्मिन् कालावधावेव परिपूर्णमजायत् मठस्य गृहनिर्माणं तस्य भेश्म भविष्यपे पाश्चात्यशिष्याप्रदितो प्रागे भावस्य कन्दनं गृहभ्रूमे क्रयार्थं च निर्माणाय गृहस्य च प्रतिमां गुरुदेवस्य स्थापयन् देवमन्दिरे मठस्योद्घाटनं स्वामी विधिवद् कृतवानपि गुर्वमेवान् स्वामी तथैव न्यस्तवानपि भौतिकान्यवशिष्टानि गुरोरस्मिन् गृहस्थले अरसोन्मत्तो भव स्वामी मठस्योद्घाटने कृते मत्वा यत् प्राप्तम् अधुना मठेन स्वगृहं स्थिरम् महनीयं भविष्यत् तसम् आश्रमाय व्यभावयत् सार्वलौकिकधर्मस्य शिक्षणं तु मठे भवे विश्वसौहार्दसन्देशो मठादस्माद्भविष्यते नायाचते तथा गच्छेत् सर्वत्र भुवनं प्रति सममेव स्वपक्षानुसारि चिन्तां विवर्जितुं स्वामिनोक्तं यदा भाषणं विहितं तदा सदैव गुरुदेवस्य सान्निध्यं भवतान् मठे तस्य दिव्यावतारश्च प्रार्थनां क्रियतामिति सन्न्यासिनस्तथा भक्तान् ब्रह्मचारिण उद् उद्दिशन् निर्देशम् अकरोत् स्वामी तस्मिन् सम्मेलनेषु वे भारतीयपरिज्ञानम् अध्यात्मविषये सदा पाश्चात्यजनतायास्तु विज्ञानं भौतिकं तथा युगपच्च भवेदेव तयोरध्यापनं मठे एतदर्थो मठे कश्चिद् विश्वविद्यालयो भवेत् अन्नदानं तथा विद्यादानमत्यन्तमुत्तमं ज्ञानदानं च जायेत मठमुख्यप्रवर्तनं सारगर्भाणि कार्याणि विविधान्यैव मुक्तवान् स्वामिवर्यो यदा तत्र भाषणं कुरुते स्म च आवेशभरित स्वामी तस्मिन्नवसरे भवत् मुख्यकर्म विधातुं स शक्तोऽभूदिति नन्मतिः मन्दिरं गुरुदेवस्य भाविसन्न्यासिरो मठ देदयस्य निर्माणं स्वामि चमो क्षमोऽभवत् यम्भारमूढवान् स्वामी द्वादशान् दीर्घवशरान् दूरे कृतो भवेद्यद्य स इत्येवभा इत्येवम् अभाषत नानाविधानि कर्माणि मठस्य प्रत्यहं खलो विकासं प्राप्नुवन्ति ते दृष्ट्वा भवत। सतीर्थ्या तथा स्वस्य शिष्यानां शिष्यान् प्रेषयन्स च मठस्य लक्ष्यसिद्ध्यर्थं नानास्थानानि भारते दीनानां सेवनं तद्वद्वेदान्तस्य प्रचारणं कुर्वन्ति स्म च सर्वे नितरां विमलात्मनां निवेदितेत्यभितो बालिकाशिक्षणालयः कलकत्तायामुपाप्रान्तः कालेऽस्मिन् स्वामि चोदितः निवेदिताख्यसोदर्यानाकर्माणि भारते इत्यनेन प्रकारेण समारब्धानि वस्तुतः उद्बोधनमिति प्रोक्ता काचिन्मासिकपत्रिकाम् आरब्धा वङ्गभाषायां स्वामिनिर्देशहेतुना श्रीरामकृष्णदेवस्य सन्देशस्य प्रचारणम् एतत् पत्रिकया सम्यक् क्रियेतेति निरूपितम् प्रागे बाङ्गलभाषायां ये भाषायाम् एतदर्थं प्रकाशिता प्रबुद्धभारतं नाम काचिन्माशपत्रिका नायावतिभिहिते स्थाने हिमगिरिस्थते आश्रमं स्वामिवर्येण स्थापितं बहुविश्रुतं जातिवंशादिभिन्नत्वं विना कोऽपि क्षमो भवेत् अध्यात्मज्ञानलाभार्थं प्रवेष्टुं तं मठं ध्रुवम् अन्धविश्वासरयितं लितं चापि निर्मलम् अद्वैततत्वं पाठ्येत तथाभ्यस्येश्चेत् तत्त्वच अन्यशास्त्रान् विच्छेरन् विच्छेरन्ननुभावेन विनिश्चितं शिक्षणं परमद्वैततत्त्वस्यैव सदा भवेत् अस्वास्थ्यं स्वामिवर्यस्य यथा पूर्वम् अवस्थितम् कुमौसुख्यं तदीयं न निहुनीभूतं मनागपि सन्न्यासिनां च सर्वेषां प्रार्थनामनुसृत्य सा कलकत्तायां विषग्वरं गच्छति स्म पुनः पुनः तस्योपदेशसंलब्धै जनास्तत्रापि सङ्गताः संलग्नस्यास आरात्रं धनबोधनकरमणि अत्रापि स्वामिवर्यस्य चेष्टितेषु विलोकिता श्रीरामकृष्णदेवस्य प्रशस्ताचारतुल्यता प्राधान्यं निजशिष्याणाम् अभ्यासविषयं प्रति विवेकानन्दवर्येण प्रदत्तं सर्वदा तथा ध्यानं शारीरिकाभ्यासं पञ्चं पचनं भक्षणस्य च कर्तुं स योकान् शिष्यान् सदा प्रेरितवानपि सर्वाणितानि कर्माणि स्वयमेव समाचरन् प्रोत्साहनं स्वशिष्याणाम् अकरोश निरन्तरं विश्रमोमं नैवास्ति कर्मलग्नो भुवन्नहं मरणं प्राप्नुयां मृ अहं स्निह्यामि वस्तुतः जीवनं मृत्युरेवास्ति सर्वै सुकर्म तत्पराः जीवेयं च म्रियेयाहं कर्मण्येव च उक्तवान् शिष्यान् स्वामी निरादिशत् वैराग्यादेव नितं फलमुद्भवेत् केवलं श्रेष्ठसन्न्यासी महाकर्मकरो भवे यतसोऽस्ति तु निर्लिप्त स्वामिनैव मुदीरितं साक्षात्कारं दैव तस्य जनानां सेवनं तथा एतौ भवत आदर्शो संन्यासिनि इति ध्रुवं त्रितो भवत संन्यासी वेदानामेव वे शीर्षके केवलं वेदवाङ्ग्य एवैतत्समुदीरितं प्रत्यक्षदैवतं सोऽस्ति भुवने स्मर्यतामिति अतो गच्छतु सन्न्यासीन् पुरोधैर्य समन्वितः स्वस्य मुक्तै न कुरुतां सन्न्यास्यध्यात्मसाधनम् एवं स कुरुते नरकं यास्यते सदैवात्मनिविश्वासं सन्न्यासी कर्तुमर्हति आत्मविश्वासराहित्यं भवेन्मरणकारणम् आत्मन्नेवास्तु विश्वास आदौ देवेततः परं प्रपञ्चं चालयेदेव स्वल्पक्रवलोचनः एकस्मिन्नेव मर्तेऽस्ति जगत् सर्वं तथाविधम् अस्ति विश्वबलं सर्वमेकवस्तु कलेशपि मस्तिष्कस्य हृदिश्चापि यदि सङ्घटनं भवेदनुगम्यतां हृदयं स्वामी शिष्यानुपादिशत् दित्येवंविधवाक्यानि बहूनि प्रोक्तवालपे भटान्ते वासिन स्वामी विभिन्नावसरेषु वा च